दस्युभिर्वानिरुद्धानाम् त्वङ्गति परमानृणाम् जलप्रतरणे चैवा कान्तारेष्वटवीषु च ये स्मरन्ति महादेवी न च सीदन्ति ते नराः त्वम् कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः सन्ध्या क्षमादया नृणाञ्च बन्धनम् मोहम् पुत्र नाशम् धनक्षयम् व्याधिम् पूजिता नाशयिष्यसि सोऽहम् राज्यात् परिभ्रष्टः शरणम् प्रपन्नवान् प्रणतश्च यथा मूर्धा तव दे प्राहिमां पद्मपत्राक्षीसत्ये सत्याभवस्वनः शरणं भवमे दुर्गे शरण्ये भक्तवत्सले एवं स्तुता हि सा देवी दर्शया मासपाण्डवम् उपगम्यतु राजानमिदं वचनमब्रवीत् देव्युवाच शृणु राजन्महाबाहो मदीयं वचनं प्रभो भविष्यत्यचिरा देवा सङ्ग्रामे विजयस्तव मम प्रसादान् हत्वा कौरववाहिनीं राज्यं निष्टक्